श्रीमद्भागवतमहापुराणं दशमस्कन्ध अथैकोनत्रिंशोऽध्यायः रासलीलाका आरम्भ श्रीशोकुवाच भगवानपि तारात्रिसरदोत्फुल्लमल्लिकाः दीक्ष्य रन्तुं मनश्चक्रे योगमायामुपासितः ततोऽुराजकुकुभकरैर्मुखं प्राचामिलिम्पन्नरुणेन सां सन्तमैः सचर्षणीनां मुदगाच्छुतो मृजन् प्रियप्रियाया इव दीर्घदर्शन दृष्ट्वा कुमुन्द्वन्तमखण्डमण्डलं रमाननाभं नम कुङ्कुमारुणं वनं च तत्कोङ्कोमलगोभिरञ्जितं जगौ कलं वामदिशां मनोहरं निशम्यगीतं तदनङ्गवर्धनं रजस्त्रिय आजग्मुरण्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः दुहन्त्योऽभिययौ काचिद् दोहं धृत्वा समुत्सुकाः दयोधिसृत्य सयावमनुद्वास्यापराजयुः परिवेशयन्त्यस्तृत्वापायन्त्य सुशुण्ठयः शुश्रूषन्त्य पतिं काचित् अस्नदस्नोन्त्योपासि भोजनं लिम्पन्त्य प्रमृजन्त्यूर्ण्यां नन्दन्त्य काश्यलोचरे दत्यन्तवस्त्राभरणाः काशीकृष्णान्तिकं ययुः ता वार्यमाणा पतिभिः पितृभिर्भातिबन्धुवी गोविन्दापहितात्मानो न न वर्तन्त मोहिताः अन्तर्गृहि गता काशीद् गोप्यो लब्धम् निर्गमाः यत्नम् तद्भावना युक्ता दध्युर्मेलितलोचताः दुःसहप्रेष्ठविरहते प्रतापधृताशुभाः ध्यानप्राप्ता च्युताश्लेषीणमङ्गलाः तमेव परमात्मानम् जारबुद्ध्यापिम् सङ्गताः जहरं जहृङ्गुणमयं देहं सद्यं प्रक्षीलबन्धनाः राजवाच कृष्णं यदोपरं कान्तं न तु ब्रह्मतया मुरे गुणप्रवाहो परमस्ताशां गुणधियां कथं शेषो उवाच उक्तं चैद्य चेद्यसिद्धिं यथागतः द्विषन्नपि शुशि केशं किमुताधोक्षजप्रियाः नृणाम्नि निप। व्यक्तिर्भगवतो नृपदव्यस्याप्रमेयस्य निर्गुणस्य गुणात्मनः कामं क्रोधम् भयं स्नेहम् ऐक्यम् सौहृदमेव च नित्यम्भरौ विदधतो यान्ति तन्मयतां हि न चैव विस्मयकार्यो भवता भगवत्यजे योगेश्वरेश्वरे कृष्णे यत् एतद्विमुच्यते तादृश्वान्तिकां कमायाता भगवान् वृजयोषितः अवदद्वदतां श्रेष्ठोवाच पेशै विमोहयन् श्रीभगवानुवाच स्वागतं वो महाभागाः प्रियं किं करवाणि वः त्रयस्यानामयं क्वचिन्द्रुतागमनकारणम् व्रजन्येषा घोररूपा घोरसत्त्वनिसेविता प्रीतयात व्रजन्येह सेयं सेविषु मध्यमाः मातरः पितरः पुत्रा भ्रातरः पश्यतश्च विचिन्वन्ते च पश्यन्तो मा क्रुढ्वम् बन्धुसाध्वसं दिष्टम्बनम् कुसुमितम् राकेशकरञ्जितम् यमुनानिललीलैजन्तरुं पल्लवशोभितम् तदियात्माचिरं गोष्ठं शस्रूध्वं पतिंसति क्रन्दन्ति वस्सा बालाश्च तानपायत दुह्यत अथवा मदभिस्नेहान् भवद्यो यन्ति ताशयाः आगताशु पन्पन्नं व प्रीयन्ते भर्तु शुश्रूषणं स्त्रीणां परो धर्मो यमाय्यां तद्बन्धूनां च कल्याण्यप्रजानां चानुपोषणं दुश्चैरो दुर्भगो वृद्धो रणोरोग्यधनोऽपि वा प्रतिस्त्रिभिर्न हातव्यो लोकेऽप्यसुभिर्पातके दस्वर्गमेयसस्यं च फल्गुकृत्सं भयावहं जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः